नह्यमीभूतसत्त्वौघाः पन्नगाः सनगा महीम् तदाधारयितुम् शेकुः सङ्क्रान्ताम् दानवैर्बलात् ततो महीमहीपालभारार्ता भयपीडिता जगामशरणम् देवम् सर्वभूतपितामहम् देवं संवृतम् महाभागैर्देव द्विजमहर्षिभिः ददर्श देवम् ब्रह्माणम् लोककर्तारमव्ययम् गन्धैर्वैरप्सरोभिश्च देवकर्मसु निष्ठितैः वन्द्यमानम् मुदोपेतैर्व वन्दे चैनमेत्यसा अथ विज्ञापयामास भूमिस्तम् शरणार्थिनी सन्निधौ लोकपालानाम् सर्वेषामेव भारत तत्प्रधानात्मनस्तस्य भूमेः कृत्यम् स्वयम्भुवः पूर्वमेवाभवद्राजन्विदितम् परमेष्ठिनः स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत ससुरासुरलोकानामशेषेण मनोगतम् तामुवाच महाराज भूमिम् भूमिपतिः प्रभुः प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः